नारदपुराणम् पूर्वार्थम् अध्यायम् नैन्टी सेवेन् श्रीब्रह्मोवाच शृणु विप्रवक्ष्यामि पुराणम् नारदीयकम् पञ्चविंशतिसाहस्रम् बृहत् कल्पकथाश्रयम् सुतशौनकसंवादसृष्टिसङ्क्षेपवर्णनम् नाना धर्मकथापुण्या प्रवृत्ते समुदाहृताः प्राग्भागे प्रथमे पादे सनके सनकेन महात्मना द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणं वेदाङ्गानां च कथनं शूकोत्पत्तिश्च विस्तराद सनन्दने गदिता नारदाय महात्मने महातन्त्रे समुद्दिष्टम् पशुपाशविमोक्षणम् मन्त्राणाम् शोधनम् दीक्षा मन्त्रोद्धारश्च पूजनम् प्रयोगाकवचम् नाम सहस्रम् स्तोत्रमेवज गणेशसूर्यविष्णूनाम् शिव शक्त्योरनुक्रमाद सनकुमारमुनिना नारदाय तृतीयके पुराणलक्षणं चैव प्रमाणं दानमेव च पृथक् पृथक् समुद्दिष्टं दानकालपुरस्सरं चैत्रादिसर्वमासेषु तिथीनां च पृथक् पृथक् प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनं सनातनेन मुनिना नारदाय चतुर्भके अस्ोत्तरे विभागे प्रश्न एकादशी व्रते वसीनाथ संवाद कर्मजा पुण्य मोहित्पत्ति कर्मज वसुशापस्ोिनेश्चा क्रिया गंगा कथा पुण्यतमा गयात्रुर्तन काश्यामाहात्म्यमधुलम् पुरुषोत्तमवर्णनम् यत्रा विधानम् क्षेत्रस्य बह्वाख्यानसमन्वितम् प्रयागस्याधमाहात्म्यम् कुरुक्षेत्रस्य तत्परम् हरिद्वारस्य चाख्यानम् कामोदाख्यानकम् तथा बदरीतीर्थमाहात्म्यम् कामाक्षायास्तथैव च प्रभासस्य च माहात्म्यम् पुष्कराख्यानकम् ततः गौतमाख्यानकम् पश्चाद्वेदपादस्तवस्ततः गोकर्णक्षत्रमाहात्म्यम् लक्ष्मणाख्यानकम् तथा सेतुमाहात्म्यकधनम् नर्मदा तीर्थवर्णनम् अवन्त्याश्चैव माहात्म्यम् मा बृन्दावनस्य महिमा पश्योद्ब्रह्मान्तिके गतिः मोहिनीचरितं पश्च देवं पश्चादेवं वै नारदीयकं। यशृणोदि नरो भक्त्या श्रावयेद्वा समाहितः स यादिब्रह्मणो नात्रकार्या विचारणा यस्त्वेददिषु पूर्णायां धेनूनां प्रदद्याद्ये जयाय प्रद्यादिजन्द्राय सं लभेन्मोक्षमेव च यश्चानुक्रमणी मेधां नारदीयस्य वर्णयेत् शृणु यद्वैकचित्तेन सोऽपि स्वर्गगतिं लभेद इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपख्या नाम नारदीयपुराणाक्रमणी कथनम सप्तनोध्याय ओम